नारायणीयं दशकं सेवेण्टि मल्टिमीटर्स् इति त्वयिरसाकुलं रमिदवल्लभे वल्लभाः कदापि पुनरम्बिका कमिदुरंपिका कानने समेत्य भवदासमं निशिनिषेव्यदिव्योत्सवं सुखं। सुषुपुरग्रसिद्व्रजपमुग्रनागस्तदा समुन्मुखमधोल्मुखैरभिषदेऽपि तस्मिन् बलादमुञ्जदि भवत्पदेण्यपदि पाहि पाहीति पाही तैः तदा कलुपदा पदा भवान् समुपगम्यपस्पर्शतं बभौ स च निजान्तनुं समुपसाध्यवैद्याधरीम् सुदर्शनधरप्रभो ननु सुदर्शनाख्योऽस्म्यहं मुनीन् क्वचिदपाहसं त इह मां व्यधुर्वाहसं भवत्पदसमर्पणादमलताम् गदोऽस्मीत्यसौ स्तुवन्निजपदं ययौ व्रजपदं च गोपामुदा कदापि खलु सीरिणा विहरदि त्वयि स्त्रीजनैर्जहार धनदानुगः सकिलशङ्खचूडो बलाः अदिद्रुतमनुद्रुतस्तमधमुक्तनारीजनम् रुरोजिधशिरोमणिं हलभृते च तस्या ददाः दिनेषु च सुहृज्जनैः सह वनेषु लीलापरं मनोभवमनोहरं रसिदवेणुनादामृदं भवन्तममरीदृशा ममृदपारणादायिनम् विचिन्त्य किमुनालपन्विरहदापिता गोपिकाः भोजराजभृद कस्त्वध कश्चित् कष्टदुष्टपथदृष्टिररिष्टः निष्टुराकृतिरपष्टु निनादस्तिष्ठदे स्म शाक्वरोधजगदी धृदिहारी मूर्तिमेष बृहदिं प्रदधानः पङ्किमाशु परिकूर्ण्यपशूनां चन्दसंनिधिमवापभवन्तं तुङ्गशृङ्गमुखमाश्वभियन्दं सङ्गृह्यरभः सादभियन्दं भद्ररूपमपि दैत्यमभद्रम् मर्दयन्न मदयः सुरलोकम् चित्रमद्य भगवन् वृषखादात्सुस्तिराजनि वृषस्तिरुर्व्याम् वर्धते ज वृषचेतसि भूयान्मोद इत्यभिनुतोऽसि सुरैस्त्वम् औक्षपाणिपरिधावदूरम् वीक्ष्यतामयमिहोक्षविभेदी इत्थमात हसितैः सह गोपैर्गेह गस्त्वमवदपुरेश सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द